यस्य कोपो को महाबाधप्रसादश्च महापलः कस्तस्य मनसापीच्छेदनर्थम् प्राज्ञसम्मतः न चोष्ठौ न भुजौ जानू न च सदा वाचम् च वाचम् चाष्ठीवनम् चाचरेच्छनैः हास्यवस्तुषु चान्यस्या वर्तमानेषु केषुचित् नातिगाढम् प्रहृष्येत न चाप्युन्मत्तवद्धसेत् न चातिधैर्येण चरेद्गुरुताम् हि व्रजेत्ततः स्मिदन्तु मृदुपूर्वेणादर्शयेतप्रसादजम् लाभेन हर्षयेद्यस्तु न व्यथयेद्योवमानितः असम्मोषश्च यो नित्यम् स राजवसतिम् वसेत् राजानम् राजपुत्रम् वा संवर्णयति यः सदा अमात्यपण्डितो भूत्वा सचिरम् तिष्ठते प्रगृहीतश्च यो मात्यो निगृहीतस्त्वकारणैः न निर्वदति प्रत्यक्षम् च परोक्षम् च गुणवादी विचक्षणः उपजीवी भवेद्राज्ञो विषये योऽपि वा भवेत अमात्यो हि बलाद्भोक्तुम् राजानं प्रार्थयेतयः न स तिष्ठेच्चिरम् स्थानम् गच्छेच्च प्राणसंशयम् श्रेयः सदात्मनो दृष्ट्वा परम् राज्ञानसंवदेत् विशेषयेच्च राजानम् योग्यभूमिषु सर्वदा अम्लानो बलवाञ्छूरच्छायेवानुगतः सदा सत्यवादीमृदुर्दान्तः स राजवसतिं वसेत् अन्यस्मिन् प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् अहं किं करवाणीति स राजवसतिं वसेत् आन्तरे चैव बाह्ये च राज्ञा यश्चाथ सर्वदा आदिष्टो नैव कम्पेत स राजवसतिं वसेत् यो वै गृहेभ्यः प्रवसन्प्रियाणां नानुसंस्मरेत् दुःखेन सुखमन्विच्छेत् स राजवसतिं वसेत् समवेशं न कुर्वीता नोच्चैः सन्निहितो वसेत् न मन्त्रं बहुधा कुर्यादेवं राज्ञप्रियो भवेत् न कर्मणि नियुक्तः सन्धनं हि हरं बन्धनं यदि वा वधम्